हरि ओम् श्री सीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे एकोनचत्वारिंश सर्गः राज्ञो दशरथस्य विलापः तदाज्ञया सुमन्त्रेण श्रीरामस्य कृते रथस्य आनयनम् कोशाध्यक्षेण सीतायै बहुमूल्यवस्त्रा भूषणानाम् समर्पणम् कौसल्याय सीताम् प्रति पतिसेवाय उपदेशः प्रीतया तथांगीकरण श्रीराम से मातर प्रति दोषदि पर अरोध अन्या मातृच संबोध्य वनम गंतुा प्राथन राच श्रुवा मुनिेशरीक्ष सह भार भी राजा विगतचेतन नैनम दुखे संतप्त पच्छ वैक्षतराघवम् न शयनमभि सम्प्रेक्ष्य पत्यभाषतदुर्मणः स्वमुहूर्तम् विवासन्यो दुःखितश्च महीपतिः विललाप महबाहु रामम् बेवानुचिन्तयन् मञ्जे खलु मया पूर्वम् विवत्सा बहव प्राणिनो हिंसिता वापि तन्माम् इदमुपस्थितम् न त्वे वा नागते काले देहाच्चवति जीवितम् कैकेय्या करिष्यमाणस्य मृत्युर्म विद्यते योहं पावकसङ्काशम् पश्यामि पुरतस्थितम् विहाय वसने सूक्ष्मे तापसः शादमात्मजम् एकस्या एक खलु एक कृते यम् कीद्यते जनः स्वार्थे प्रयतमानाय संश्रित्य निकृतिम् माम् एवम् उक्त्वा वचनम् बाष्पेण भेन्द्रियः रामेण सकृदैव उक्त्वा व्याहर्तुम् न शशाकृतः सद्यां तु पतिलभ्यैव मुहूर्ता स महीपतिः सुमन्त्रम् इदमब्रवीत् औपवाह्यम् रथम् युक्त्वा त्वं मायाहि हयोत्तमै प्रापयैनम् महाभागम् इतो जनपदात् परम् एवम् मन्ये गुणवताम् गुणानाम् फलमुच्यते पित्रा मात्रा च यत्साधु वीरो निर्वास्यते वनम् राज्ञो सुमन्त्र शीघ्र विक्रमः योजयित्वा ययो तत्र रथं वैश्वरलङ्कृतं तमृतम् राजपुत्राय सुत कनकभूषितम् आचक्षुञ्जलिं कृत्वा युक्तं, परमवादिभिः राजा सत्परमाहूय व्यापृतम् वित्त सञ्चये उवाच देशकालज्ञो निश्चितं सर्वतश्रुचि वासांसि च वरार्हाणि भूषणानि महन्ति च वर्षाणितानि सङ्ख्याय वैदेह्या नरेन्द्रेणैव मुक्तस्तु गत्वा कोश गृहं ततः प्रयच्छ सर्वमाहृत्य सीतायै क्षिप्रमेव सुजातानि सुजाता वैदेहि प्रस्थिता वनम् भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः वैदेही वेश्म तत् सुविभूषित उदितोशो मतः काले खम् प्रभेव विवस्वतः ताम्भूयाभ्याम् परिष्वज्य श्वश्रुर्वचनमब्रवीत् अनाचरन्तीम् मूर्ध्यमुपाघ्राय मैथिलीम् असत्यः सर्वलोकेऽस्मिन् सततं सत्कृतप्रियै भट्टारम्नानुमन्यन्ते विनेपातः गतम् श्रियः एष स्वभावो नारीणाम् अनुभूय पुरा सुखम् अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजःत्यपि असत्यशीला विकृता दुर्गा अहृदया सदा असत्ये पापसङ्कल्पः पा क्षणम् मात्र विरागिणः न कुलं न कृतम् विद्या न ना दत्तम् नापि सङ्ग्रह स्त्रीणाम् गृह्णाति हृदयम् अनित्यहृदयहितः साध्वीनां तु स्थितानाम् तु शीले सत्ये श्रुते स्थिते स्त्रीणाम् पवित्रम् पति कशिष्य सत्व नाव मतव्य पुत्र प्रवराजि वनम सवदेश निर्धन स धन विद्याय वचनम सीता तरह धर्म संहित कृप्वाजलिम उवाचेद शश्रुमा मुखे स्थिति कई आरियाम अभिस्था वर्तित्यम श्रुत जे न मम अस्त जन नर्या सो समाने धर्म विचल नलम चंद्र दिव प्रभा न तंत्री वाजते वीण ना चक्रो विद्य रथ न सुख मेधेत या चादपि शतात्मजा मितं ददाति हि पिता मितं भ्रातामितं सुतः अमितस्य तुदातारम् भर्तारम् का न पूजयेत् साहमेवं गता श्रेष्ठ श्रुतधर्म परावर आर्ये किम् अवमन्येयम् स्त्रिया भर्ता हि दैवतं सीताया वचनम् श्रुत्वा कौसल्या हृदयङ्गमम् शुद्ध सत्त्वा ममोचाश्रु सहसा दुःखम् तां प्राञ्जलि अभिप्रेक्ष्य मातृमध्येति सत्कृताम् रामः परमधर्मात्मा मातरम् वाक्यमब्रवीत् अम्ब मा दुःखिताय भूत्वा पश्ये तम् पितरम् मम क्षिप्रम् एव भविष्यति सुप्तायासे गमिष्यन्ति नववर्षाणि पञ्चत् समग्रम् इह सम्प्राप्तम् मां द्रक्षति सुहृद्भृतम् एतावत् अभिनीतार्थम् उक्त्वा स जननिम्बचः त्रयशतशतार्थाहि ददाेक्ष मातरः सा चापि स्वीवार्ता मातृ दशरथात्मज धर्मयुक्तम् विदम् वाक्यम् निजगाद कृताञ्जलिः संवासात् वरुषम् अज्ञानादपि यत् कृतम् तन्मे सम् उपजयजानीत् सर्वाश्च मन्त्रयामिवहे वचनम् राघवस्य एतत् धर्मयुक्तम् समाहितम् शोकोपहत चेतसः यज्ञेथ तासाम् सन्नाद क्रौञ्चीनामिव निस्वनः मानवेन्द्रस्य भार्याणाम् एवम् वदति राघवे मुरजप्रणव मेघोषवत् दशरथ वेष्म बभूव यत्पुरा विलपितपरिदेवतानुकूलम् व्यसनगतम् तदभूत् इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकाव्यकोनचत्वारिंशर्ग सर्गहे श्रीता रामचन्द्र अर्पणमस्तु